ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 63 त्रि भार्गवचरिते इक्ष्वाकुवंशकीर्तनं सूत उवाच कगुत्मिन्नस्तुतं लोकं रैवतस्य गदस्यः तृदा पुण्यजनैसर्वा राक्षसैः साकुशस्थली तद्वै भ्रातृशदं तस्य धार्मिकस्य महात्मनः निबध्यमानम् नाराचैर्विदिष्यप्राद्रवद्भयाद तेषाम् तु तद्भयक्रान्तक्षत्रियाणां च विधृताम् अन्ववायस्तु सुमहांस्तत्र तत्र तत्र द्विजोत्तमाः शार्यादा इति विख्यादा दिक्षु सर्वासु धर्मिकाः दृष्टस्य धर्ष्टिकं सर्वं रणधृष्टं बभूवः त्रिसाहस्रं तु गणःक्षत्रियाणां महात्मनां नभगस्य च दायादो नाभादो नाम वीर्यवान् अम्बरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः यदे क्षत्रप्रसूता वै पुनश्चाङ्गिरसस्मृताः रथीतराणां प्रवराः क्षेत्रोपेदाद्विजातयः क्षुवतस्तु मनोः तस्य पुत्र शतं त्वासि दिक्ष्वाकोर्भूरिदक्षिमं तेषां श्रेष्ठो विकुक्षिस्तु निमिर्दण्डश्च ते त्रयः शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतस्तु ते, पुत्रा ते उत्तरापथदेशस्य रक्षिदारो महीक्षितः चत्वारिंशत् तथाष्टौ च दक्षिणस्यां तु वै दिशि विराडप्रमुखास्ते च दक्षिणापथरक्षिणः इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामधा दिशत राजोवाच मां समानयश्राद्धे त्वमृगान्हत्वा महाबलः श्राद्धं ममदुकर्तव्यमष्टकानाम्न संशयः सगदो मृगयां चैव वचनात् तस्य धीमतः मृगान् सहस्रगान् हत्वा परिश्रान्तश्च वीर्यवान् भक्षयश्चशकं तत्र विगुक्षिर्मृगयां गदः आगतेहि हि विगुक्षैतु स मांसे महसैनिके वसिष्ठं चोदयामास मांसप्रोक्षयतामिति रथेदि चोदितो राज्ञा विधिवत्तदुपस्थितम् सदृष्ट्वोपहदं मांसं क्रुद्धो राजानमब्रवीद अनेनोपहदमांसं पुत्रेण तव पार्थिव शशभक्षाददुष्टं वै नैव मां संमहाद्युते शशो दुरात्मना पूर्वममनाभक्षितो नख तेन मां दुष्टं पितॄणां नृपसत्तम येक्ष्वाकुस्तु तथ क्रुद्धो विकुक्षिमिदमब्रवीद पितृकर्मणि निर्दिष्टो मया च मृगयां गतः शशं धक्ष यशेरण्ये निर्घृणः पूर्वमद्यतु तस्मात् परित्यजामि त्वां स्वेन कर्मणा एवमिक्ष्वा कुणात्यक्तो वसिष्ठवचनात्सुतः इक्ष्वाकौ संस्थिते तस्मिञ्च शशादः पृथिवीमिमां प्राप्तः परगधर्मात्मा स चायोध्याधिपो भवद तदा करोत्सराज्यं वैवसिष्ठ परिणोदिदः तदस्तेनैनसा पूर्णो राज्यावस्थो महीपतिः कालेन गतवान् शोधशकृन्मूत्रतरङ्गितं ज्ञात्वैव मेददाख्यानं नाविधिर्भक्षयेद्बुधः मांस भक्षयिदामुत्र यस्य मांसमिहाद्म्यहम् एदन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः शशादस्य दुदायाधःकगुत्स्थो नाम वीर्यवान् इन्द्रस्य वृषभूतस्य कगुत्स्थो जयते पुरा पूर्वमाडीबके युद्धे ककुत्स्थस्तेन संस्मृतः अनेनास्तु कगुस्तस्य पृथुश्चानेन सस्मृतः ऋषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्यवान् अन्ध्रातु युवनाश्वस्तु शात्मज जेस्तको राजस्तीय निर्मता श्रावस्त दुदयाद बृहद महायश बृहदुतचापि कवलाश्व यस्त दुन्धुवधाद्राजा दुन्धुमारत्वमागधः ऋषय ऊचुः धुन्धोर्वधमहाप्राज्ञ खोदुमिच्छामविस्तराद् यदर्थं कुवलाश्वस्य धुन्धुमारत्वमागधम् सूत उवाच कुबलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः सर्वे विद्यास्तु निष्णादा बलवन्तो दुरासदाः बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः कुवलाश्वं महावीर्यं। सूर्यमुत्तमधार्मिकं बृहदश्वोह्यभिषिञ्च तस्मिन् राज्ये नराधिपः पुत्रसङ्क्रामिदश्रीस्तु वनं राजा विवेशः बृहदश्वं महाराजं सूर्यमुत्तमधार्मिकम् प्रयास्यन्तमुदङ्गस्तु ब्रह्मर्षि प्रत्यवारयत उत्त उवाच भवदारक्षणं कार्यं तत्तावत्कर्तुमर्हति निरुद्विघ्नस्तपश्चर्तुं न हि शक्रोऽपि पार्थिव ममाश्रमसमीपेषु मेरोर्हि परितस्तु वै समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते देवतानामवध्यस्तु महाकायो महाबलः अन्तर्भूमि गतस्तत्र वालुकान्तर्हितो महान् राक्षसस्य मधोः पुत्रो दुन्धुर्नाम महासुरः शेदे लोकविनाशाय तप आस्थाय दारुणं संवत्सरस्य पर्यन्ते स निःश्वासं यदा तदा महीतत्र तत्र स्म सकानना तस्य निश्वासवादेन रज उद्धूयते महद आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् सविस्फुलिङ्गं सज्ज्वारं सधूममदिदारुणं तेन राजन् शक्नोमि तस्मिन् स्थातुं स्व आश्रमे संवारयमहाबाहो लोकानां हितकाम्यया तेजस्ते सुमहद्विष्मुस्तेजसाप्याययिष्यति लोका स्वस्ता भवन्त्वद्य तस्मिन्विनिहदे सुरे त्वं हि तस्य वधार्थाय समर्थः पृथिवीपते विष्णुना च वरो दत्तो मम पूर्वयतो नख न हि दुन्धुर्महावीर्यस्तेजसाल्पेन शाक्यते निर्दग्धुं पृथिवीपालैरपि वर्षशतैरपि वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् एवमुक्तस्तु राजर्षिरुत्तेन महात्मना कुबलाश्वं तु तं प्रादातस्मिन् धुन्दुनिवारणे भगवन्यस्तशास्भोः मयं तु तनयो मम भविष्यदि द्विजश्रेष्ठदुन्धुमारो न संशयः सदमादिश्यतनयं दुन्धुमाग्नमच्युदं जगामस वनायैव तपसे शंसितव्रतः कुवलाश्वस्तु धर्मात्मा पितुर्वजनमाश्रितः सह क्रैरेकविंशत्या पुत्राणां सह पार्थिवः प्रायादुत्तङ्कसहितो दुन्धोस्तस्य निवारणे तमाविश विष्णुर्भगवान् स्वेन तेजसा उत्तस्य नियोगास्तु लोकानां हिदकाम्यया तस्मिन् प्रयादे दुर्धर्षे दिवि शब्दो महानभूत् अद्य प्रभृत्येष नृपो दुन्धुमारो भविष्यति दि दिव्यैः पुष्पैश्च तं देवास्सम्मदात्समवाकिरन् देवदुन्दुभयश्चैव प्रणे दुर्हि तदा भृशं स गत्वा पुरुषव्याक्रस्तनयैः सह वीर्यवान् समुद्रं कानयामास वालुकापूर्णमव्ययं तस्य पुत्रैः खनद्भिश्च वालुकान्दर्हितस्तदा दुन्धुरासादिदस्तत्र दिशमाश्रित्य पश्चिमां मुखजेनाग्निना क्रुद्धो लोपानुद्वर्तयन्निव वाजि चोगेन महोदधिरिवोदये सोमस्य सो सोऽसुरश्रेष्ठो धारोर्मिकलिलो महान् तस्य निर्दग्धास्त्रय उर्वरिदा मृधे ततः स महाबलं। राक्षसं महाबलम् आससादमहातेजादुन्धुं बन्धुनिबर्हणम् तस्य वारिमयं वेगमपि वत्स योगी योगेन वह्निं च शमयामास वारिणा निरस्यन्तं महाकायं बलेनोदकराक्षसम् उत्तं दर्शयामास कृतकर्मा नराधिपः उत्तश्च परं प्रादात्तस्मै राज्ञे महात्मने दधतश्चाक्षयं वित्तं शत्रुभिश्चाप्यधुष्यतां धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयं पुत्राणां चाक्षयां लोकान् स्वर्गे ये रक्षसा उच्यते तुत्रस्त्रशिषा दृढ़ाशोज्येष्ट उच्य भद्राश्विलास् कनीयांसौत स्मृतौन्द मारिर्दृढ़ाश्व हरश्वस्त चात्मजः हर्यश्वस्य निकुम्भो भूत्क्षात्रधर्मरतः सदा संहताश्वो निकुम्भस्य सुतोरणविशारदः कृशाश्वकृताश्वश्च संहताश्वसुदावोभौ तस्य पत्नी हैमवती सती माता दृशद्वती विख्याोकेशु पुत्रा से नजिद युवनाश्व सुतस्तु विश्रुदः। विश्रुता धार्मिका गौरी तस् पत्नी पतिव्रता अभिशक् तो सार् नदी बाहुता कृता तस्यास्तु गौरिकपुत्रश्चक्रवर्ती बभूवः मान्धादा यौवनाश्वो वै त्रैलोक्यविजयीनृपः अत्राप्युदाहरन्तीमं श्लोकं पौराणिका द्विजाः यावत्सूर्य उदयदे यावच्च प्रतिष्ठति सर्वं तद्यवनाश्वस्य यौवनाश्वस्य मान्धाधुः तस्य चैत्ररथी भार्या शशबिन्दो सुता भवद साध्वी बिंदुमदीनाम रूपेणा प्रतिमा भुवि परिव्रता च ज्येष्ठा च भ्रातृणामयुतस्य सा तस्यामुत्पादयामास मान्धात्रीन् सुतन्प्रभुः पुरुकुत्समम्बरीशमुचुकुन्तं च विश्रुतम् अम्बरीशस्य दायादो युवनाश्वो परस्मृतः नर्मदायां समुत्पन्नः सम्भुदस्तस्य चात्मजः सम्भुदस्यात्मजः पुत्रोऽन्यः प्रदापवान् रावणेन हतो येन त्रैलोक्यं विजितं पुरा तेन दृश्यो नरण्यस्य हर्यश्वस्तस्य चात्मजः अयश्वात्तु दृषद्वत्या जज्ञे च सुमतिर्नृपः तस्य पुत्रो भवद्राजा नाम त्रिधन्वा नामधार्मिकः आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणिः प्रभुः तस्य सत्यव्रतो नाम कुमारो भून्महाबलः तेन भार्या विदर्भस्य धृदा हत्वा दिवौकसः पाणिग्रहणमन्त्रेषु निष्ठानं प्रापितेष्विह कामात् बलाच्च मोहाच्च संहर्षेण बलेन च भाविनोर्ध्वस्य च बलात् तत्कृतं तेन धीमता तमद्धर्मेण संयुक्तं पिता भय्यारुणोत्यजद अपध्वंसेधि बहुशो वदन् क्रोधसमन्वितः पितरं सोऽब्रवीतेख क्व गच्छामीदि वै पिता चैनमधो वाच्योपाकैः सह वर्तय पुत्रेण पुत्रार्थी त्वयाद्यकुलपांसन इत्युक्तः स निराक्रामन्नगराद्वचनाद्विभोः न चैनं वारयामास वसिष्ठो भगवान् ऋषिः सदु सत्यव्रतो धीमाश्वपाका वसधान्दिके पित्रात्यक्तो वसद्धीरः पिता चास्य वनं व्ययौ तस्मिंस्तु विषये नावर्षत्पाकशासनः समाद्वादशसम्पूर्मास्तेना धर्मेण तदा दारांस्तु तस्य विषये विश्वामित्रो महात्तपः संन्यस्य सागरानुपे चचार विपुलं तपः तस्य पत्नीगले बद्ध्वा मध्यमं पुत्रमौरसं शिष्ठानाम् भरणार्थाय व्यक्रीणाद्गोष्यते न वै तन्तुबद्धं विक्रयार्थं नरोत्तमः महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रदः सत्यव्रदो महाबुद्धिर्भरणं तस्य चाकरोत् विश्वामित्रस्य तुष्ट्यार्थमनुकम्पार्थमेव च सो भवद्गालवो नाम गले बद्धो महातपाः महर्षिः कौशिकस्तादतेन वीरेण मोक्षितः तस्य व्रतेन भक्त्या च कृपया विश्वामित्रकलत्रं च बभार विनये स्थितः अथवा मृगान्वराहांश्च महिषांश्च जलेचरान् विश्वामित्राश्रमाभ्यासे तन्मां समनयत्तदः उपां शुभ्रतमस्ताय दीक्षां द्वादशवार्षिकीं पितुर्नियोगादभजनृपेदुवनमास्थिते अयोध्यां चैव राष्ट्रं च तथैवान्तःपुरं पुनिः याज्योद्धान्यायसंयोगाद्वसिष्ठः पर्यरक्षद सत्यव्रतस्सु बाल्यात् भाविनोऽर्थस्य वै बलाद् वसिष्ठेभ्यधिकमन्युं धारयामासमन्युना पिता तुदं तदा राष्ट्रात् परित्यक्तं स्वमात्मजं नवारया न वारयामासमुनिर्वसिष्ठकारणेन वै पाणिग्रहममन्त्राणाम् निष्ठा सप्तमे पदे एवं सत्यव्रतस्तां वै हृतवान् सप्तमे पदे जानन्तर्मान्यसिष्ठस्तु नवमन्त्रा निहेच्छति इति सत्यव्रतो रोषं वसिष्ठे मनसा करोद गुणबुद्ध्यादु भगवान् वसिष्ठकृतवांस्तपः न तु सत्यव्रतो बुद्ध्यधुपांशुव्रतमस्य वै तस्मिं स्तु परमोरोषः पितुरासीन्महात्मनः तेन द्वादशवर्षाणि नावर्षत्पाकशासनः तेन त्विदानीं वहदा दीक्षां तां दुर्वहां भुवि कुलस्य निष्कृति स्वस्य श्रुतेयं च भवेदिति तदोऽवसिष्ठो भगवान् पित्रात्यक्रं नवारयत वारयत अभिषेक्ष्याम्यहं नष्टे पश्चादेनमिति प्रभुः सदुद्वादशवर्षाणि दीक्षां तामुद्वहन् बली अविद्यमानेमां सेदु वसिष्ठस्य महात्मनः सर्वकामदुःखां धेनुं सददर्श नृपात्मजः तां क्रोधाच्च मोहाच्च श्रमच्चैव क्षुधान्वितः दस्युधर्मगदो दृष्ट्वा जघानबलिनां वरः सदुमांसं स्वयं चैव विश्वामित्रस्य चात्मजान् भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजद प्रोवाज चैव चैव भगवान्वसिष्ठस्थं नृपात्मजम् पादयेयमहं क्रूर तव शङ्कुमपोह्य वै यदिदे त्रीणि शङ्कूनि न स्युर्हि पुरुषाधमा पितुश्चापारितोषेण गुरोर्देहग्रीवधेन च अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः एवं स त्रीणि शङ्गूनि दृष्ट्वा तस्य महातपाः स्त्रिशङ्गुरिदिहो वाच सस्मृतः विश्वामित्रस्तु धाराणामागधो भरणे कृते ततस्तस्मै वरं प्रादा तदाप्रीदस्त्रिशङ्गवे चंद्यमो वरेनाथ गुर वे नृपात्मज स शरीर व्रजे स्वर्गमिताचि वर अनावृष्टिभ तस्दशवाषि के अभिषिच्यराज्ये योजया मास तुन मिषदां देवतानां च वसिष्ठस्य च कौशिकः सशरीरं तदा तं वै दिवमारोपयत्प्रभुः मिषतस्तु वसिष्ठस्य तदद्भुतमिवा भवद् अत्राप्युदाहरन्दीमं श्लोकं पौराणिका जनाः विश्वामित्रप्रसादेन त्रिशङ्कुर्दिविराजते दे। देवैः सार्धं महातेजानुग्रहात् तस्य धीमतः तस्य सत्यरदानाम नाम भार्या कैकयवंशजा कुमारं जनयामास हरिश्चन्द्रमकल्मषम् सदुराजा हरिश्चन्द्रस्त्रैशङ्कव इति अहर्ता राजसूयस्य सम्रडिति परिश्रुतः हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान् हरिदो रोहितस्यथ चञ्चुर्हरीद उच्यते विनयश्च सुदेवश्च चन्दुपुत्रौ बभूवधुः चैदा सर्वस्य क्षत्रस्य विजयस्तेन सस्मृतः रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः रुरुकातु वृत्कः पुत्रस्तस्माद्बाहुर्विजज्ञिवान् हाई हाई निरस्तो व्यसनी नृप्शवनकांोजारध्लैस्त नाको भूत्सधम सदियु तथा सुदो सगरस्तुसुदो बाहोर्जे सह ग भृगोराश्रममासाद्यह्यौर्व परिरक्षितः आग्नेयमस्त्रं लब्ध्वादु भार्गवात्सगरो नृपः जखानपृथिवीं गत्वा तालजङ्घान् सहैहयान् शकानां पह्लवानां च धर्मं निरसदच्युदः क्षत्रियाणां तथा तेषां पारदानां च धर्मविद ऋषय ऊचुः कथं स नगरो राजा गरेण सहजज्ञवान् किमर्थं वाचकादीनां क्षत्रियाणां मफौजसां धर्मान् कुलोचितान् क्रुद्धो राजा निरसदच्युतः सूत उवाच नस्तस्य धृतं राज्यं पुरा किल हैहयैस्तालजङ्खैश्च है शकैसार्थं समागतैः यवनाः पारदाश्चैव काम्भोजाः पह्लवास्तथा हैहयार्थं है पराक्रान्ता ये येदे पञ्चगणास्तदा धृतराज्यस्तदा बाहु स तदा गृहं वनं प्रविश्य धर्मात्मा सह पत्न्या तपोचरत् कदाचिदप्यकल्पः स तोयार्थं प्रस्थितो नृपः वृद्धत्वात् दुर्बलत्वाच्चह्यन्तरा स ममारच पत्नी तु यादवी तस्य सगर्भा पृष्टतोऽप्यगाद स पत्न्यादु गरस्तस्यैतत्तो गर्भजिखांसया साधु भर्तुश्चिदां कृत्वा वह्निं तं समारोहयद और्वस्तं भर्गवो दृष्ट्वा कारुण्याभिन्यवर्तयद तस्याश्रमे तु गर्भं सा गरेण च तदा सह सगरं नाम धर्मिकम् और्वस्तु जातकर्मादीन् कृत्वा तस्य महात्मनः अध्याप्यवेदाञ्चास्त्राणि ततोऽस्त्रं प्रत्यपादयत तदश्चकांश यवनान् काम्भोजान् पारदांस्तथा पक्लवांश्चैव निःशेषान् कर्तुं व्यवसितो नृपः देहन्यमाना वीरेण सगरेण महात्मना वसिष्ठं शरणं सर्वे सम्प्राप्ता शरणैषिणः वसिष्ठो वीक्ष्य तान् युक्तान् विनयो नमः मुनिः सगरं वारयामास दत्वा भयं तथा सगरस्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्यच च जघानधर्मं वैदेश्यां वेशान्यत्वं चकारः अर्धं शाकानां शिरसो मुण्डयित्वा व्यसर्जयद यवनानां शिरःसर्वं काम्बोजानां तथैव पारदा शाच बह्लवाश्श्रुधारिण निवाध्यायन महात्मना शनकांभोजा बह्लवास्पै पारदैसह कलिस्पर्श महिषिका दार्वस्थोला खास्त क्षत्रियधस्तेषा निरा विष्ठवचना पूर्व सगरे महात्मना सधर्म विजयी राजा विजिते मं वसुंधरा अश्वैच वाजिमेधादीक्षि तस्य चारयदशोश्वसमुद्रे पूर्वदक्षिणे वेदा समीपे पहृतो भूमिं चैव प्रवेशितः सदं देशं सुधै पार्थिवः आसे दुश्च ततस्तस्मिन् कनन्तस्ते महा समाधिपुरुषं देवं हरिं कृष्णं प्रजापदिं विष्णुं कपिलरूपेण हंसं नारायणं प्रभुं तस्य चक्षुःसमासाद्य ते जस्तत्प्रतिपद्यते दग्धाः पुत्रास्तदा सर्वे चत्वारस्त्ववशेषिताः बर्हिके दुःसुकेतुश्च तथा धर्मरथश्च यः शूरः पञ्चजनश्चैव तस्य वंशकरा प्रभोः प्रादाच्च तस्य भगवान् हरिनारायणो वरान् अक्षयत्वं त्वं स्ववंशस्य वाजिमेधशदं तथा विभुपुत्रं समुद्रं च स्वर्गे वासं तथा तं समुद्रोऽश्वमादाय भवन्ते सरितां पतिः सागरत्वं च कर्मणा तेन तस्य वै तं चाश्वमेधिकं सोऽश्वं समुद्रात्प्राप्य पार्थिवः आजहाराश्वमेधानां शतं चैव पुनः पुनः षष्टिं पुत्रसहस्राणि दत्तान्यस्य रुषा विभो येषां ते नारायणं तेजः प्रविष्टानि महात्मनां पुत्राणां तु सहस्राणि षष्ठिस्तु इति न श्रुतं ऋषय ऊचुः सगरस्यात्मजाना कथं जादा महाबलाः विक्रान्ता षष्टिसहस्रा विधिना केनवा वद सुद उवाच द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः कनीयसी तोया तय पत्नी परम धर्मिणी अरष्टने दुखिता रूपेण प्रदि ऊर्वस्ताभ्यादाधित प्रभु येका जनिष्य पुत्र वंशकर्ता रीप षष्टिं पुत्रसहस्राणि द्वितीया जनयिष्यति मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेकं वंशस्य करणं श्रेष्ठं जग्राह नृपसंसदि षष्टिं पुत्रसहस्राणि सुवर्णभगिनी तथा महाभागा प्रमुदिता जग्राह सुमधिस्तथा अथ गदे ज्येष्ठा ज्येष्ठम् पुत्रं व्यजायत असमञ्ज इति ख्यातम् का गुस्तम् सगरात्मजं सुमधिस्त्वभिजज्ञे वै गर्भतुम्बं यशस्विनी षष्टिः पुत्रसहस्राणां तुम्बमध्याद्विनिःसृताः खतपूर्णेशंभु तद तात्रीच प्रादी पोषण नृपः तदो नवसुम समुत्थस्तुथा सुखम् कुमारास्ते महाभागास्सगरप्रीतिवर्धनाः काले न महदा चैव यौवनं समुपाश्रिताः के शिन्यास्तनयो योऽन्यस्सगरस्यात्मसम्भवः असमञ्ज इति ख्यातो वर्हि के दुर्महाबलः पौराणामहिदेयुक्तः पित्रा निर्वासिदः पुराद तस्य पुत्रोऽशुमान्नाम असमञ्जस्य वीर्यवान् तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः दिलीपा तु महातेजा वीरो जादो भगीरथः येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता इहादा सुरेशाद्वै दुहिधृत्वे च कल्पिता अत्राप्युदाहरन्दीमं श्लोगं पौराणिका जनाः भगीरथस्तुतां गङ्गामानयामस कर्मभिः तस्माद् भगीरथी गङ्गा कथयदेवं च वित्तमैः विश्रुदो नाम बभूवः नाभागस्तस्य दायादो नित्यं धर्मपरायणः अम्बरीष सुतस्तस्य सिंधुद्वीपस्तदो भवद पूर्वे वंशपुराणज्ञा गायन्तीति परिश्रुतं नाभागेरम्बरीषस्य भुजाभ्यां परिपालिता बभोव वसुधात्यर्थं तापत्रय तापत्रयविवर्जिता अयुदायुसुतस्तस्य सिन्धुद्वीपस्य वीर्यवान् अयुतायोस्तु दयाद ऋतुवर्णो महायशः दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बलीर्नलौ द्वाविधिविख्यादौ पुराणेषु दृढव्रतौ वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ऋतुपर्णस्य पुत्रोऽभूत् सर्वकामो जनेश्वरः सुदासस्तस्य धनयो राजा इन्द्रसखो भवत् सुदासस्य सुदः सुदासो सुदा सौदासो नाम पार्थिवः ख्याधक् कल्माषपादो वै नाम्ना सित्र सहश्च वसिष्ठस्तु महातेजाः क्षेत्रे कल्माशपादके अश्मकं जनयामासत्विक्ष्वाकुकुलवृद्धये अश्मकस्यौरसो यस्तु मूलकस्तत्सुतो मूलकस्तत्सुदोभवद अत्राप्युदाहरदीमं मूलकं वै नृपं राम स वसत विवस्त्रस्त्राण परिवसत विवस्त्री कवच ईश्वर मूल क्या धर्मात् शतरथ स्मृत तस्मातर राजली आसीत्त्वैडबिड श्रीमान् कृशर्मा प्रतापवान् पुत्रो विश्वसहस्रस्य पुत्री कस्यां व्यजायत दिलीपस्थस्य पुत्रोऽभूत् खड्वाङ्ग इति विश्रुतः येन स्वर्गादि आगत्य मुहूर्तं प्राप्य जीवितम् त्रयोऽभि संहिता लोका बुद्ध्या सत्येन चैव हि दीर्घबाहु सुदत्तस्य रघुस्तस्मादजायत अजःपुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् राजा दशरथो नाम इक्ष्वा कुकुलनन्दनः रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः हरदो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः माधवं लवणं हत्वा गत्वा मधुवनं चतद तद् शत्रुघ्रेण पुरी तत्र मधुरा विनिवेशिता सुबाहुशुरसेनश्च शत्रुघ्नस्य सुधावुभौ पालयामासतुस्तौदु वै देह्यौ मधुरां पुरीम् अङ्गदश्चन्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ हिमवत्पर्वदस्यान्ते स्विधौ जनपदौ तयोः अङ्गदस्याङ्गदाख्यादा देशे कारयदे पुरी चन्द्रकेदोऽस्तु विख्यादा पुरी शुभा भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च गान्धारविषये सिद्धे तयोः पुर्यो महात्मनोः तक्षस्य दिक्षुविख्याता नाम्ना तक्षशिला पुरी पुष्करस्यापि वीरस्य विख्याता पुष्करावधि गाधां चैवात्र गायन्ति ये पुराणविदो जनाः रामेण बद्धां सत्यार्थां माहात्म्या तस्य धीमतः श्यामो युवा लोहिताक्षो आजानु बाहु सुमुखसिंहस्कन्धो महाभुजः दशवर्षसहस्राणि रामो राज्यमकारयद ऋक्सामयजुषां कोशो यो कोषश्च महास्वनः अव्युच्छिन्नो भवद्राज्ये दीयतां भुज्यतामिति जनस्थाने वसन् कार्यं त्रिदशानां चकारसः तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः सीतायाः पदमन्विच्छन्निजघानमहायशाः सत्ववान्गुणसम्पन्नो दीप्यमानस्वतेजसा अतिसूर्यं च वह्निं च रामो दाशरथिर्बभौ एवमेष महाभाहोस्तस्य पुत्रौ बभूवधुः कुशो लव इति ख्यातो तयोर्देशौ निबोधत कुशस्य कोशलाराज्यं पुरी चापि कुशस्थली रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु उत्तरा कोशले राज्यलवस्य च महात्मनः श्रावस्तिर्लोकविख्याता कुशवंशं निबोधत कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः अतिथेरविख्यातो निषधो नाम पार्थिवः निषधस्य नलपुत्रो नलस्यदु नाभासुतः नभः ना स पुण्डरीकस्तु क्षेमधन्वा तदस्मृतः क्षेमधन्वसुतो राजा देवानीकः आसी देवानी आसीदहिनगुर्नाम देवानीकात्मजप्रभुः अहिनगोस्तु दायादपारियात्रो महायशाः दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः उलूको नाम धर्मात्मा बलपुत्रो बभूवः वज्रनाभसुतस्तस्य शङ्घणस्तस्य चात्मजः शङ्कणस्य सुतो विद्वान् व्युषिताश्च इति श्रुतः व्युषिताश्व सुतश्चाभिजा विश्वसह किल हिरण्यनाभकौशल्यो वरिष्ठस्तत्सुतो भवद पौष्यम् जेश्च स वैशिष्य स्मृतः प्राच्येषु सामसु शतानि संहितानां तु पञ्चयोधी दवांस्ततः तस्मादधिगतो योगो याज्ञवल्क्येन धीमता पुष्पस्तस्य सुदो विद्वान् ध्रुवसन्धिश्च तत्सुतः सुदर्शनस्तस्य सुदोख्यग्निवर्मः अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मरुस्मृतः मरुस्तु योगमास्थाय कलापग्राममास्थितः एकोनविंशप्रयुगे क्षत्रप्रावर्तकः प्रभुसुदो प्रभु मरोः पुत्रः सुसन्धिस्तस्य सुसम्धेश्च तथा मर्षत्सहस्वान्नामनामदः आसीत् सहस्वतः पुत्रो राजा विश्रुतवानिधि तस्यासीद्विश्रुतवतः पुत्रो राजा बृहत् बलः य देही क्ष्वाकुदायादा राजानदशस्मृताः वंशे प्रधाना एतस्मिन् प्राधान्येन तु कीर्तिताः पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः प्रजावा निर्दिशायुज्य मनोर्वेवस्वतस्य सह श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च विवाप्मा विरजाश्चैव आयुष्माञ्जायते च्युतः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धादपादे भार्गवचरिते इक्ष्वागुवंशकीर्तनं नाम ष्टमय ओ